द्रक्ष्यामि गोकुल निलयम् कीर्तन मध्यमावति रागं आकाश कंसप्रेरणतो बृन्दवनम् अक्रूरु नन्दगोपतनय चूडगोरि ध्यानिस्त अनुभूति वासुदेव स्थिति मध्ये मार्गं मुहुस्मर मध्ये मुहुस्मर मध्ये मार्गं मुहुस्मर मार अक्रोरा गोकुलं गच्छन् मध्ये मार्गं कृष्णस्य गुणरत्नानि गाय अक्रूरो गोकुलं गच्छन् कृष्णस्य गुणरत्नानि गायं मध्ये मार्गं मुहुः मध्यमार्गं मुघुस्मर गुणरत्नानि गायौ गायौ कृष्णस्य गुणरत्नानि गायौ गायु यो वेति रक्षामि गोकुलनिलयं रक्षामि गोकुलनिलयं गोपी माधवं द्रक्षामि गोकुलनिलयं गोपी रक्षामि गोकुल प्रक्षीनकल्मषयोगीं प्रत्यक्षदैव नूनं प्रक्षीणकल्मषयोगी प्रत्यक्षदैव नूनं द्रक्ष्यामि गोकुलनीयं कोपी माधवं द्रक्ष्यामि कारण्यकुठार पादपङ्कजौ शुद्ध पादच सलीलपुन भक्तसमाजौ केतकीचम्पकतुलसी ललितवारिजौ सीत केवलानन्दैकभावौ कलितमोगजौ नूनं रक्ष्यामि माधवं गच्छामि पक्षिमृगवृन्दमिका याति दक्षिणेपदि पश्यामि पूर्णकलशौ स्यापि पूर्णकलश अक्षीणशङ्खपीनादि नादमोक्षणौ परम् अद्यैव शृणोमि मधुर मखिलक्षद्यैव शृणोमि मधुरम् अखिलारक्षणौ नूनं रचामि गोपुलीलय गोपी माधवौ रचामि गोपुलीलय चन्द्रवदन सुन्दरं मन्दघनौ चारु चम्पकना राविंदलोचनं तंदनंदनममरा रचित वंदनं भूरी तंदिता नारायण तीर्थानं दर जगनं नउ नंदीता नारायण तीर्थानं दर जगनं नउ कत्यामी गोकुलनंदय गोपिमाद kyaami nandanand namarara rajitavandanam bhori andita narayana ditanamandarajaganamuno namakam kyaami gola nilayam gobi batavam kyaami gogula निलयं द्रक्षामि गोकुल निलयो द्रच्छामि द्रक्षामि गोकुल